सर्वधर्मपकस्तुं सर्वधर्मस्वरूपक आचार्याणा महाचारू रामकृष्णयते नमः कृष्ण यते नमः यथाग्ने दाहिका सति रामकृष्णे सिताहियथाग्ने दाहिका स हिया सर्वविद्या स्वरूप सारदा प्रणमाहु सारदाणमाण्यहं पर ज्ञया यो वीरेशं वीरेशम् सम्नमानम् वीरेशम् सन्नमा फुल्लकमन माधवेन कृणारत कालिंदी फुल्लकमले माधवेन कृणारत ब्रह्मानन्द नमस्तु प्रेमानन्दत्यापार्षदा रामकृष्णगतप्रा